श्री श्रीगुरुभ्यो नमः एवद् दशकम् उद्धवर्तूद् गद्वा सान्दीपनिमत चतुष्षष्टिमात्रैरगोऽ सर्वज्ञस्त्वम् सकमुसलिन सर्वविद्याम् गृहीत्वा पुत्रं नष्टं यमनिलयन दाहृतं दक्षिणार्थम् दत्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् स्मृत्वा संमृत् स्मृत्वा स्मृत्वा, स्मृत्वा पशुबसुदृश प्रेर प्रेमभारप्रणुन्ना स्मृत्वा स्मृत्वा पशुबसुदृश प्रेम भार भारणुन्ुण्यमी विवश प्रागिणो तम किंचा मुष्मै मुश्मी परमसुहृते भक्वरिया भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् त्वन्माहात्म्यप्रतिमपिशुनं गोकुलं प्राप्यसायं, सायं त्ववार्ताभिर्बहुसरमया मासनन्दं यशोदा प्रादर्दृष्ट्वा मणिमयरथं शङ्किता पङ्गजाक्ष प्राप्तं भवतनु श्रुत्वा प्राप्तम् भवदनुचरम् त्यक्तकार्या समीयो दृष्ट्वा शैनम् द्वदुपमलसत् वेषभूषाभिरामम् स्मृत्वा स्मृत्वा तव विलसितान् योच्चगैस्तानि कथमपि पुनर् गत्कताम् वाचमूषु सौजन्यादिनिजपरभिताम् अप्यलम् विस्मरन्त्र अप्यलं विस्मरन्त्य श्रीमन् कि किम् त्वम् पितृजनकृते प्रेक्षितो निर्दयेन क्वासौ कान्तो नगरसुदृशाम् आहरेनादपाय आश्लेषाणाममृतवपुषो हन्त ते सुम्भनानाम् उन्मादानां कुह उन्मादानां कुहकवचसां विस्मरेत्कान्तका वा उन्मादानां कुहकवचसां विस्मरेत्कान्तवा कान्तका वा उन्मादानां कुहकवसचाम् उन्मादानां कुहकवसचाम् उन्मादानां कुहकवचसां विस्मरेत् कान्तका वा रासक्रीडालुलितललितम् विश्लतत्केशपाशम् मन्दोद्भिन्नश्रमजलकणम् लोभनीयम् त्वदङ्गम् कारुण्याब्देशकृतभिसमा लिङ्गितुम् दर्शयेति प्रेमोन्मादात् भुवत प्रेमोन्मादात भुवनमदन त्वत्प्रियास्त्वां विलेपूम् एवं प्रारैर्यं प्रायैर्विवसवचनैर् आकुला गोपिकास्ता त्वत्सन्देशैर् प्रकृतिमनयेत् शोतविज्ञानगर्भै भूयस्ताभिर्मुदितमदिभेस्त्वन्मयीभिर्वदूभि तद्धत्वार्ता सरसमनयत् कानिचित् वासराणि त्वत्प्रोद्घाणै सकितमनिचम् सर्वतो गेहकृध्यम् त्वद्वार्तैव प्रसरति मित सैवतोपाल चेष्टाप्रायस्त्वदनुकृतयस्ेष्टा प्रायस्त्वदनुकृतयस् चेष्टा त्वन्मयम् सर्वमेवम् दृष्ट्वा तत्रव्यमुखदिकम् दृष्ट्वा तत्रव्यमुखददिकम् विस्मयादुद्दवोऽयम् राधायामे प्रियतमभितम् राधाया मे प्रियतममितं मत्प्रियैवं प्रवीति मत्प्रियैवं ब्रवीति त्वं किं मौनं कलयसि सके मानि मत्प्रियेव इत्यात्येव प्रवदति सखि त्वत्प्रियो निर्जनेमा इत्थम् वाधैररमयदयम् त्वत्प्रियामुत्पलाक्षीम् येषामित्रागनुबगमनम् केवलम् कार्यभारात् विश्लेषेऽभिस्मरणदृढता सम्भवान् मास्तु केध ब्रह्मानन्दे मिलति न चिरात् सङ्गमो वा वियोग तुल्यो वस्यादिति तव गिरा सोकरो निर्व्यतास्ताम् भक्ति एवं भक्ति तिः सकलभुवने नेक्षिता न श्रुता वा किं शास्त्रौघै किमिह तपसा गोपिकाभ्यो नमोऽस्तु इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते भागि मा कृष्णबोल् कृष्णबोल् कृष्ण कृष्ण बोल् राधा समेध श्रीराधे बोल.